हरि ओम् श्रीसीतारामचन्द्राभ्याम् नमः अथ श्रीमद्वाल्मीकि रामायणे युद्धकाण्डे द्विनवतितमः स्वर्गः रावणस्य शोकः सुपार्श्वे कर्तृक आश्वासनेन च तस्य सीतावधान निवृत्तिः ततः सचिवाः श्रुत्वा चेन्द्रजितो वधम् आचक्षु अभिज्ञाय दशग्रीवाय सत्वरः युद्धे हतो महाराज लक्ष्मणेन तवात्मजः विभीषणसहायेन मिषतां नो महाद्युतिः शूरः संगम्य संयोगेष्व पराजितः लक्ष्मणेन हत शूर पुत्रस्ते विबुधीन्द्रजित् परमान गोकान शरियतर्प्य लक्ष्मण स तम प्रति भयम श्रुवा वहम पुत्र से दारुण गौर जित सल प्राविशन्ह उपलभ्य चिरा सनिया राजा राक्षस पुत्र पुंगव पुत्रशोका दीनो विद्रिय आराक्षस च मोमुख्य मम वत्स महाबल जितेन्द्रं कथमद्य तं लक्ष्मणस्य वशं गतः ननु त्वं निशुभे क्रुद्धो भिञ्ज्या कालान्तकापि मन्दरस्यापि शृङ्गाणि किं पुनर्लक्ष्मणं युधि अद्य वसवतो राजा भूय बहूमतो मम येनाद्य त्वम् महाबाहु संयुक्तः धर्मणा एष पन्था सुयोधानाम् सर्वा मरगणेष्वपि यः हन्यते भर्तु स्वपुमान् स्वर्गम् ऋच्छति अद्य देवगणाः सर्वे लोकपाला महर्षय फतमिन्द्रजितम् श्रुत्वा सुखम् स्वप्स्यन्ति निर्भयः अद्य लोकाश्रय कृत्ना पृथिवी च स गानना एकेनेन्द्रजिताहीना शून्ये व प्रतिभाति मे अद्य नैऋतकन्यानाम् श्रोष्याम्यन्तः पुरे निनादं करेणु सङ्गश्च यथा निनादम् गिरिगौहरे यौवराज्यम् च रक्षासि च परन्तप मातरं मां च भार्या च क्व गतोऽसि विहायनः मम नाम त्वया वीरगतस्य यमसाधनं प्रीतकार्याणि कार्याणि विपरीते हि वर्तसे सत्वं जीवति सुग्रीवे लक्ष्मणे च स राघवे मम शल्यम् अनुधृत्य क्व गतोऽसि लाम रावण राक्ष अविवेश महान कोप पुत्र व्यसन संभव प्रकृत कोपन ये न पुत्र पुनराधय दिप्त संदीपयासु घर्मेम घर्मे गिव रश्म लाटे भ्रूटीच संगता युगान्ते स न क्रतु महोर्मीभिोदधि कोपाद् विजृम्भमाणस्य वक्त्राद् व्यक्तमिव ज्वलन् उत्पपात स धूमग्नि वदना पुत्रस्य वदनादिव स पुत्र वद सन्तप्तः शूर समीक्ष रावणो बुद्ध्या वैदेह्या रोचयद्वधम् तस्य प्रकृत्या रक्ते च रक्ते क्रोधाग्नि नापि च रावणस्य महाघोरे दीपे नेत्रे बभूवतुः घोरम् प्रकृत्या रूपम् तत् तस्य क्रोधाग्नि मूर्च्छितम् बभूव क्रुद्धस्य रुद्रस्यैव दुरासनम् तस्य क्रुद्धस्य नेत्राभ्याम् प्रापतन अश्रु बिन्दवहे दीपाभ्याम् इव दीप्ताभ्याम् स्वाचिष स्नेह बिन्दवहे दन्तान् विदशतस्तस्य श्रूयते दशनस्वनः यत्नस्याकृष्यमाणस्य मथनतो दानवैरिव कालाग्निरिव सङ्क्रुद्धो याम् याम् दिशमवैक्षत् तस्याम् तस्याम् राक्षसा विलिल्लिरे विलिलिरे तमन्तकं व्यवैक्रुद्धम् चराचरचिखादिषु वीक्षमाणम् दिश सर्वा राक्षस नोपचक्रमुः ततः परमः सङ्क्रुद्धो रावणो राक्षसाधिपः अब्रवीत् राक्षसां मध्ये संस्तम्भयीश्वर हरवे राहवे मम वर्ष सहस्राणि चरित्वा परमं तपः तेषु तेष्वकाशेषु स्वयम्भू परितोषितः तस्यैव तपसो व्युष्ट्या प्रसादाच्च स्वयम्भुवः नासुरेभ्यो न देवेभ्यो भयं भाव कदाचन कवचम् ब्रह्म दत्तं समप्रभम् देवासुर विन विमर्देशु न च्छिन्नं वज्रमुष्टिभिः तेन मामद्य संयुक्तम् रथस्थं य संयुगे प्रतीयात् कोद्यमाजौ साक्षादपि पुरन्दरः यत्तदाभिः प्रसन्नेन स शरं देवासुर विमर्धेषु मम स्वयंभुवा अद्य तुर्यशतैर्भीमम् धनुरुत्थाप्यतां मम रामालक्ष्मयोरेव वधाय परमाहवे सपुत्र पुत्र क्रूर क्रूर क्रूरव क्रोधवशं समीक्ष रावणो बुद्ध्या सीता हन्तुम् व्यवस्यत प्रत्यवेक्षां राक्ष सुघोरघोरदर्शनः दीनो दीनस्वरात् सर्वान् तानुवाच निशाचरान् मायया मम वत्सेन वञ्चनार्थम् वनौकसाम् देव हतम् तत्र सीतेयमिति दर्शितम् तदिदम् तथ्यमेवाहम् करिष्ये प्रियमात्मनः वै देहिम् नाशिष्यामि क्षत्रबन्धुम् मनोवताम् इत्येवमुक्त्वा सचिवान् खड्गमाशु परमृशत् उद्धृत्य गुणसम्पन्नम् बिमलाम् बलवर्चसम् निष्पपात सवेगेन सभार्यः सचिवैवृतः रावण पुत्रशोकेन भषमा कुलचेतनः संक्रुद्ध खड्गमादाय ये, सहसा यत्र मैथिली पर्यन्तम् राक्षसं प्रेक्ष्य सिंहनादम् विचक्रुशुः ऊषु चान्योन्यमालिङ्ग्य सङ्क्रुद्धम् प्रेक्ष्य राक्षसम् अध्ययनम् तौ उभौ दृष्ट्वा भ्रातरौ प्रव्यथिष्यत लोकपाला हि चत्वारि क्रुद्धेनानेन ना निर्जितः बहवः शत्रवचान्ये संयोगेष्वभिपातितः त्रिषु लोकेषु रत्नानि भुङ्क्ते आहृत्य रावणः विक्रमे च बले चैव नास्त्यस्य सदृशो भुवि तेषाम् सञ्जल्पमानानाम् अशोकवनिकाम् गताम् अभिदुद्राव वैदेहिम् रावणः क्रोधमूर्छितः वार्यमाण सङ्ग्रद्ध सुहृद्भिर्हितबुद्धिभिः अभ्यदावत संक्रुद्ध खे ग्रहो रोहिणीमिव मैथिली रक्षमाणा तु रक्षसीभि अनिन्दिता ददश्च राक्षससंक्रुद्धम् निस्त्रिंश वरधारिणम् तं निशम्य स निस्त्रिंश व्यथिता सुहृद्भी अनिवर्तिनम् सीता दुःखतमाविष्टा विलपन्तीमिदमब्रवीत् यद्यथाऽयम् मामभिक्रुद्ध समभ्य द्रवति स्वयम् वहिष्यति सनाथा माम् अनाथामेव दुर्मतिः बहुश चोदयामास भर्तारं भार्या माम् अभवत् स्वेति प्रत्याख्यात्वध्रुवम् मया सोऽयम् मामनुपस्थाने व्यक्तम् नैराश्यमागतः क्रोधमोहसमाविष्टो व्यक्तम् माम् हन्तुमुद्यतः अथवा तो न द्रव्याघ्रौ भ्रातरौ रामलक्ष्मणौ मन्निमित्तम् अनार्येण समरेद्य निपातितौ भैरवो हि महानाथो राक्षसानाम् श्रुतो मया बाहूनाम् ह्यरुष्टानाम् तथा विक्रोशताम् प्रियम् अहोधिङ्मन्निमित्तोऽयम् विनाशो राजपुत्रयोः अथवा पुत्रशोकेन अहत्वा रामलक्ष्मणो विदमिष्यति माम् राक्षस पापनिश्चयहे हू तद्वाक्यं न कृतं क्षुद्रिया मया यद्यहं तस्य तदा या स मनर्जिता न देवं शोचेयं भक्तुरं गता सती मन्ये तु हृदयं तस्या कौसल्याया फलिष्यति एकपुत्रा यदा पुत्रम् विनष्टम् श्रोष्यते युधि सा जन्मच जन्म च बाल्यं च यौवनम् च महात्मनः धर्मकार्याणि रूपम् च रुदति निराशा निहते पुत्रे दत्त्वा श्राद्धमचेतना अग्निमावेक्षते नूनम् अपोवापि प्रवेक्षते दिगस्तु कुब्जा मन्थराम् पापनिश्चयाम् यन्निमित्तम् इमम् शोकम् कौसल्या प्रतिपश्यते इत्येवम् मैथिलीम् दृष्ट्वा विलपन्तीम् तपस्विनीम् रोहिणीम् इव चन्द्रेण विना ग्रह वशं गताम् एतस्मिन्नन्तरे सुपाशो नाम रावणम् रक्ष साम्बरम् निवार्यमाण स जीवै इदम्बचनमब्रवीत् कथम् धाम दश ग्रीव साक्षाद् वै श्रवणानुज हन्तुम् इच्छसि वैदेहीम् क्रोधात् धर्मम् अपास्य च वेदविद्यावृतस्मात् सकर्मा निरतस्तथा श्रियकस्माब्धम् वीर मन्यते राक्षसेश्वर मैथिलीं रूपसम्पन्नां प्रत्यवेक्ष स्वपार्थिव तस्मिन्नेव स अस्माभिः आह्वे क्रोधमुत्सृय अभ्युत्थानं त्वमद्यैव कृष्णपक्ष चतुर्दशी कृत्वा निर्याय भावस्यां विजयाय बलैर्वृतः शूरो धीमा नृति खड्गी रथ प्रवरमास्तितः हत्वा दाशरथिं रामम् भवान् प्राप्स्यति मैथिलीम् सतद्दुरात्मा सुहृदा निवेदितम् वच सुधर्म्यम् प्रतिघूरि गृह्य रावण गृहम् च गामा च विदयवान् पुनः सभां च प्रयो सु इत्यार्थे श्रीमद् रामायणे वाल्मीकीये अधिकारे युद्धकाण्डे श्री नवतितमः सर्गः श्रीसीतारामचन्द्रार्पणमस्तु